श्रीमद्भागवत्महापुराणं पञ्चं स्कन्धम् असाष्टमोऽध्याय शेषोकुवाच एकदा तु महानद्यां कृताभिषेकनैमिकावश्यको ब्रह्माक्षरम् अभिज्ञानो मुहूर्तद्रयमुदङ्कान्त उपविवेश तत्र तदा राजन्हरिणी पृपाशया जलाशयाभ्यासमेक एवोपजगाम तया पे पीयमान उदके तावदेवाविदूरेण नदतो मृगपतेरुन्नादो लोकभयङ्कर उदपत तमुपसृत्य सा मृगवधू प्रकृतिर्विक्लवां चकितनिरीक्षणा सुतरामपि हरिर्भयाभिर् निवेशभ्यागृहद्यां पारिप्लवदृष्टिरगतदृषाभयासहसैवो चक्राप तस्या उत्पत् उत्पत्त्याम् अन्तर्वत्न्याम् उरुभयावगलितो योनिर्गतो गर्भस्रोतसी निपपात तत्प्रसवो सर्पणभयखेदातुराश्वगणेन वियुज्यमाना कस्याचिद्दर्यां कृष्णसारस्वती निपाताथ च मुमार त्वं त्वेन कुणकं कृपणं श्रोतसानूयमानम् अभिवीक्ष्यापविघ्नं बन्धोरिमानुकम्पया राजर्षिभरत आदाय मृतमातरमित्याश्रमं पदम् अनयत् तस्य ह वा एन कुणक उज्जैरे तस्मिन् कृतनिजाभिमानस्य अर्हस्तत्पोषणपालनलालनप्रीणनान्युध्यालेनात्मनियमाः संयमाः पुरुषपरिचर्यादय एकैकशकतिपयेनाहर्गणेन विद्यमानाः किल सर्व एवोदवसन् अहो बतायं हरिणकुणकः कृपण ईश्वररथ चरणपरिभ्रमणरयेण श्वगणसृहृद्बन्धुभ्यः परिविवर्जितचरणं च मोपसादितो मामेव मातापितरौ ध्रातृज्ञातिनां ज्योतिकांस्यैवोपेयाय नान्यं कञ्चन वेद मय्यति विश्रब्ध स्यात् एव मया मधरायणस्य पोषणपालन प्रीणनलालनम् अनसूयो नानुष्ठेयं शरण्यो प्रेक्षा दोषविदुषा नूनं हर्याः साधव उपशमशीलाः कृपणसुहृद एवं विधार्थे स्वार्थानपि गुरुतरानुपेक्षन्ते इति क्रेतानुषङ्ग आसन सेनाटनस्थानासनादिषु मृगजहुना स्नेहानुबद्ध श्रिते आसीत् कुशकुसुमं समिद्बलाश फलमूलोदकान्या हरिष्यमालो मृकशाला वृकादिभ्यो भयमासंसमालो यदा च हरिणकुङ्कुङ्कुणकेन वनं समाविशति प्रतिसु च मुग्धभावेन तत्र तत्र विषक्तमतिव्रणयभरहृदय कार्पण्यान् स्कन्धे नोद्वहति एवमुत्सङ्ग उरसि चाधाय पलालियन्मुदं परमामवाप क्रियायां निवर्त्यमानायामन्तरालेन् बुद्धा ज्योत्थाय यदैनम् अभयी चक्षीत तर्हि वावश प्रकृ प्रकृतिस्थेन मनसा तस्मा आशिष आशास्ते स्वस्ति स्ताद्वत्सते सर्वत इति अन्यदां श्रीसमुद्वेग्नमनां नष्टद्रविण इव कृपणं सकरुणमतिर्तर्षेण हरिणकुणकं दिरहविह्वलहृदयसन्ताप समेवानुशोचन् किल कस्मरम् महदभिरम्भित इति होवाच अपि बत स वै कृपण एण बालको मृतहरिणीसुतोह ममा नार्यस्य सठ् किरात् अतेरकृतसुकृतस्य कृतविश्रम्भ आत्मप्रत्ययेन तद्विगणयं सृजन इवागमिष्यति अपि चेमेस्मिन्नाश्रमोपवने सष्पाचरन्तं देवगुप्तं द्रक्ष्यामि अपि च न वृकः शालाभृकोण्यतमो वा नैकचर एकचरो वा भक्षयते निम्लोचते ह भगवान् सकलजगच्छेमोदयश्रय्यात्माद्यापि मम न मृगवधून्यास आगच्छति अपि स्विदं कृतसुकृतमागत्य मां सुखयिष्यति हरिणराजकुमारो विविधरुचिरन्दर्शनीया निजमृगतारकविनोदैरसन्तोषं शानामपनुदन श्वेलिकायां नामृषा समाधिना मेलितदृशं प्रेमशम्भेण चकितचकित आगत्य पृषदरुं पृषदपरुष विषाणाग्रेण लुठते आसादितहौसिं बर्हिसि दूषिते मयोपालब्धो भीतभीतसपद्यो परतरास ऋषिकुमारवदम् अवहितकरणकलाप आस्ते किं अरे आचरितं तपस्तपस्विन्यानयां यदि यमवनि सविनयकृष्णसारतनन्तनयतनुतरसुभग शिवतां शिवतमाखर कुरपदं पदं पङ्क्ति पङ्क्तिभेद्रविडं विभु विधुरास्तुरस्य कृपणस्य मम द्रविणपदवीं सूचयन्त्यात्मानं च सर्वतः कृतकौतिकं द्विधानां स्वर्गपवर्गकामानां देवयजनं करोति